गणेशपुराणम् उपासनाखण्डम् अध्यायम् 88. एय्ट् मुनिरुवाच श्रुतमाख्यानकं ब्रह्मन् गजाननव्रताश्रयं दग्धश्चेन्मदनस्थेन शङ्करेण रुषाग्निना दृश्यते सर्वलोकेषु मदनोऽद्यापि तत्कथं एतत् कथय मे सर्वं विस्ताराच्चदुरान ब्रह्मोवाच तृतीयं तु तदा नेत्रं रुष्योत्खाटितवान् हरः अपराधं तु विज्ञाय मदनस्य हृदिस्तदा आक्रन्ददीमृदम् कामम् हरान्तिकमुपागमद साष्टाङ्गप्रणिपत्यैनं तुष्टावच यथामति रदिरुवाच नमामि देवं गिरिजासहायम् वृषध्वजम्भालविलोचनं च यःपादिलोकान् खलु सत्त्वयुक्तो निर्मादिलोकान् रजसा गुणेन यस्वेच्छया संहरदेखिलेशो जगत्तमो विष्टतनुर्महेशः यो नुकपालं वहदे जनानां दीनानुकम्पी भगवान् महेशो गदप्रियाया शरणं ममास्थां कर्तुं तथा कर्तुमदीनसत्त्वशक्तोऽन्यथा कर्तुमपीह देवः समे विधत्तां शरणं गदाय सौभाग्यमुच्चयुर्मृदजीवनेन नो चेदहं प्राणविसर्जनेन यशकरिष्ये विपरीतमीश ब्रह्मोवाच एवं तया स्तुदा शम्भुप्रसन्नस्तामधा ब्रवीद शम्भुरुवाच वरं वृणुमहाभागे कामपत्निशुभानने ददामि तुष्टस्तोत्रेण सर्वान् कामान् हृदि स्थितान् इद्धं शिववच श्रुत्वा रदिर्हृष्टा प्रणम्यतम् सौभाग्यकामा तं देवं निजगादभृशातुरा रदिरुवाच स्वामिन् यदि प्रसन्नस् चेच्छृणु मे परमं वचः रसायां दिवि भूमौ वा कान्दास्युकामिनी गुणाः ममलावण्यलेशो न तेषु कापि त्रिलोचन दृष्ट्वा मुमुचुश्चक्रमुख्या वीर्यमपत्रपाः तदो मे जादा मेदामपाकुरु लावण्यं च वृथा जातं विना कामेन शङ्कर अयशो दहदे मह्यं रदित्सा विधिवेति च भर्तुदानेन देवेश मां जीवय दयानिधे एवं तया प्रार्थितोसौ शंकरो लोकशङ्करः उवाच वाचा वाच हर्षयन्कामयोषितं शिव उवाच चिन्ता मां कुरु कल्याणि न लज्जां कर्तुमर्हसि स्मृतमात्रस्त्वया बाले कामः स्याद्दृष्टिगोचरः मनसा चिन्तितो वापि मनोभूरिति सञ्ज्ञितः पूरयिष्यति ते कामान् मान्यात्वं च रमायां प्राप्स्यते यदा भर्ता तव जनेख्यादो नाम्ना प्रद्युम्न संज्ञिदः भविष्यदि महाभागे गच्छेदानीं निजालयं सा गदाशिववाक्येन मन्दिरं भृशसुन्दरं सस्मारतं पदिं साधु पुरो नङ्गः समाययौ ईश्वरेच्छावशात् तस्याः प्रत्यक्षं समजायत इति चाश्चर्ययुक्ता स तदो नङ्गो ययौ शम्भुं प्रणम्याभिदधे वचः उवाच विना पराधं देवेश नंगदां नङ्गदां कथम् इन्द्रादिदेवतावृन्दैस्तारकासुरपीडितः मुनिभिश्च विशाखस्य त्वत्त्व उत्पत्तिवेदिभिः प्रार्थितस्तवनिष्ठाय भङ्गं कर्तुमहं विभो उपकाराय सर्वेषामकार्ष कर्मतादृशम् उपकारसमं पुण्यं न चास्ति भुवनत्रये विपरीतं तु तज्जातं मम दैवात्सुरेश्वर त्रयस्त्रिंशत्कोटिदेवेष्वहं चारुतरः पुरा उपमात् चारुपुरुषे ममैव दीयते कथं तिष्ठामि देवेश स्वाङ्गहीनः परेतवत् अदो मयि महादेव कृपयानुग्रहं कुरु ब्रह्मोवाच तदयेकाक्षरं मन्त्रं गणेशस्य ददौ शिवः अनङ्गाय प्रणमतेऽनुष्ठानं चादिशर्चतम् तदो नङ्गो ययौरम्यं जनस्थानं सुसिद्धिदं तत्रानुष्ठानमगरो धनङ्गः शङ्कराज्ञया संवत्सरशदम्पूर्णं तदापसस्तपो महत् एकाक्षरं जपन्मन्त्रं गणेशध्यानतत्परः वायुमात्राशनो नित्यं सदा रदिसहायवान् ततः प्रसन्नो भगवान् देवदेवो गजाननः आविरासि दशभुजो महामुकुटशोभिदः ज्वलद्रत्नप्रभाचारुकुण्डलाङ्गदमण्डिताः कोडिसूर्यप्रतिकाशोमुक्तामाला विभूषितः दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः सिन्धूरारुणशुण्ढास्यो दशायुधलसत्करः शशालङ्कृतनाभिश्च नानालङ्कारराजितः सिंहस्कन्दो महाश्रीमां श्रीत्कारत्रासिदाखिलः इन्द्रादयोऽपि मुनय आविर्भूदे गजानने आयुरप्सरोभिश्च यक्षगन्धर्वकिन्नरैः दिव्यवादित्रनिर्घोषायैः पुपूजुस्ते गजाननम् उपचारैषोडशभिर्भक्र्य देवं पृथक् पृथक् कामोऽपि तद उद्धाय प्रणिपत्याखिलान् सुरान् ववन्दे देवचरणौ पूर्वं नत्वा मुनीनपि प्रशशंस तदा देवं विकटं करुणाकरम् काम उवाच धन्यस्त्वमसि देवेषु परब्रह्मस्वरूपवान् निराकारोपि साकारो जातोऽसि भक्तवत्सलः अद्य धन्यं मम जनुस्तपो धन्यतरं च मे यत्त वाङ्घ्रियुगं दृष्टं सर्वदुःखविमोचनम् कारणं सर्वसिद्धीनां धर्मार्थकाममोक्षदं धन्ये नेत्रयुगे मेद्ययाभ्यां दृष्टः परः पुमान् यं न वेदारताः साङ्ख्याः पादञ्जलायतः नेदि नेत्यभवं तूष्णीं वेदोऽपि यत्र अनन्तकोडिब्रह्माण्डरो मकोपोऽकिलेश्वरः येन मन्द्रेण सो दर्शि मन्द्रो धन्यतरोऽपि सः गणेश उवाच सम्यगुक्तं हृदिपदे न ब्रह्मादयो विदुः यदा साकारतां यामि तदा ममैवाग्र काम तदा, मदा परितुष्टस्ते तपसा, मनुना तथा वृणुमत्खिला काम कामे कामं ददामिते, ब्रह्मवाच य दें वच्रुवा पुनरूचे मनोभव आनुपूर्व्येण सकलं वृत्तान्तं शिवकारितं तस्मै चाकथयत्कामः प्रसन्नार्थप्रदायिने अनङ्गतां स्वस्य रथेराक्रन्दं मनुमेव च अनुष्ठानं चिरकृतं शिवदत्तं वरं तथा वृणोदिस्म वरं तस्मात् सुप्रसन्नाद् गजाननाद काम उवाच यदि प्रसन्नो भगवां स्तन्मे देहि सदेकदां मन्यतां सर्वदेवेषु प्राग्वल्लावण्यमेव च भक्तिं दृढां त्वच्चरणे त्रैलोक्य विजयं तथा श्री इति श्रीगणेशपुराणे उपासनाखण्डे अष्टाशीतितमोऽध्यायः ओ